ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं सिक्स् हिंसाद्यस्वरूपकथनम् अधोपवेश्यचैवैनमासने परमाद्भुते हयाननमुपागत्यागस्त्योवाक्यं समब्रवीत् भगवन् सर्वधर्मज्ञ सर्वसिद्धान्तवित्तमं लोकाभ्युदय हेतुर्हि दर्शनं हि भवादृशाम् आविर्भावं महादेव्यास्तस्यारूपान्तराणि च विहारश्चैव मुख्या ये तान्नो विस्तरतो वद हयग्रीव उवाच अनारखिलाधारा सद सत्कर्मिणी ध्यानदृश्याध्यांगी विद्यांगी, हृदयास्पदा आत्मक्याम चिरा गौरवाद आद प्रादुर्भूच्छक्रिर्ब्रमणोध्यान ग प्रकृतिर्नाम साख्याता देवानामिष्टसिद्धिता द्वितीयमुदभूद्रूपं प्रवृत्तेमृतमन्थने सर्वसम्मोहजनकमवाङ्मनसगोचरं यद्दर्शनादभूदिश सर्वज्ञोऽपि विमोहितः विसृज्य पार्वतीं शीघ्रन्दय रुद्धो तनोद्रदम् तस्यां मास जनयामास शास्तारमसुरार्दनम् अगस्त्य उवाच कथं वै सर्वभूतेशो वशीमन्मथशासनः अहो विमोहिदो देव्या जनयामास चात्मजम् अयग्रीव उवाच पुरामरपुराधीशो विजयश्रीसमृद्धिमान् त्रैलोक्यं पालयामास स देवासुरमानुषं कैलासशिखराकारं गजेन्द्रमधिरुह्य सख चचाराखिलोकेषु पूज्यमानोऽखिलैरपि तं प्रमत्तं विदित्वाध भवानी भवानीपदिख्ययः दुर्वाससमधाहूयप्रजिकाय तदन्तिकं धरो दण्डी धूरि धूसरविग्रहः उन्मत्तरूपधारी च ययौविद्या धराध्वना यदस्मिन्नन्तरे काले काचिद्विद्या धराङ्गना यदृच्छया गता तस्य पुनश्चारुतराकृतिः चिरकालेन तपसा तोषयित्वा पराम्बिकां तत्समर्पितमाल्यं च लब्ध्वा सन्तुष्टमानसा तान् दृष्ट्वा मृगुशावाक्षीमुवाच मुनिपुङ्कवः कुत्र वा गम्यदे लब्धमिदं त्वया प्रणम्यसा महात्मानमुवाच विनयान्विता चिरेण तव सा ब्रह्मन्देव्या दत्तं प्रसन्नया तच्छ्रुत्वा वचनं तस्याः सोऽपृच्छन्माल्यमुत्तमं पृष्ठमात्रेण सा तुष्टा ददौ तस्मै महात्मने भ्यां तत्समादाय कृतार्थोऽस्मि दिसत्वरं ददौ स्वशिरसाभक्रिया कामुवाचातिर्श्रितः ब्रह्मादीनामलभ्यं यत्तल्लब्धं भाग्यदो मया भक्तिरस्तु पदां भोजे देव्यास्तव समुज्ज्वला भविष्यच्छोभनाकार्ये गच्छ सौम्ये यथा सुखं सातं प्रणम्य शिरसा ययौ तुष्टा यथा गतं प्रेषयित्वा सदाम्भूयो ययौ विद्याधराध्वना विद्याधरवधूहस्तात्प्रतिजग्राहवल्लकीम् दिव्यस्रगनुलेंश दिव्याभ क्विद्दृन क्वजिदायन् क्विदस स्वेच्छा विहारी स मुनि युंदर स्वरस्ताक्रा प्रद मुनि तृहवा गजस्क पयामास देवराट् गजस्तु तां गृहीत्वा ध भूतले तां दृष्ट्वा प्रेषिता मालां तदा ता क्रोधेन तापसः उवाचनधृता माला शिरसाधुमयार्पिता त्रैलोक्यैश्वर्यमत्तेन भवदाह्यवमानिता महादेव्या धृताया दुर्ब्रह्माध्यैः पूज्यते हि सा त्वया यच्छासितो लोकः स देव असुरमानुषः अशोभनोक्ष्यते दे जस्को मम शापाद्भविष्यति इति शब्दा विनीतेन तेन सम्पूजितोऽपि सः तूष्णीमेव ययब्रह्मन् भाविकार्यमनुस्मरन् विजयश्रीस्तदस्तस्य दैत्यं तु बलिमन्वगाद नित्यश्रीर्नित्यपुरुषं वासुदेवमथान्वगाद् इन्द्रोऽपि स्वपुरं गत्वा सर्वदेवसमन्वितः विषण्णचेदा निःश्रीकश्चिन्तयामास देवराट् अथामरपुरे दृष्ट्वा निमित्तान्यशुभानि च बृहस्पतिं समाहूय वाक्यमे ददुवाचः भगवन् सर्वधर्मज्ञत्रिकालज्ञानकोविद दृश्यते दृष्टपूर्वाणि निमित्तान्यशुभानि च किं फलानि इति तद्वचनं श्रुत्वा देवेन्द्रस्य बृहस्पतिः प्रत्युवाच ततो वाक्यं धर्मार्थसहितं शुभम् कृतस्य कर्मणो राजन्कल्पको डिशतैरपि प्रायश्चित्तोपभोगाभ्यां विना नाशो न जायते इन्द्र उवाच कर्म वा कीदृशं ब्रह्मन् प्रायश्चित्तं च कीदृशं तत्सर्वं श्रोतुमिच्छामि तन्मे विस्तरदो वद बृहस्पतिरुवाच हननस्तेयहिंसाश्च पानमन्याङ्गनारतिः कर्मपञ्चविधं प्राहुर्दुष्कृदं धरणीपतेः ब्रह्मक्षत्रियविट्शूद्रगोधुरङ्गखरोष्ट्रकाः च दुष्पदोण्डजाब्जाश्च तिर्यचोनस्तिकास्तथा अयुतं च सहस्रं च शतं दश तथा दश दश पञ्च त्रिरेकार्धमानुपूर्व्यादिदं भवेत् ब्रह्मक्षत्रविश्यां स्त्रीणामुक्तार्थे पापमादिशेद पितृमातृगुरुस्वामी पुत्राणां चैव निष्कृतिः दुर्वाज्ञया कृतं पापं तदाज्ञालङ्कनेऽर्थकम् दशब्राह्मणभृत्यर्थमेकं हन्याद्विजं नृपः शतब्राह्मणभृत्यर्थं ब्राह्मणो ब्राह्मणं तु वा पञ्चब्रह्मविदामर्थे त्रैश्यमेकं तु दण्डयेद् वैश्यं दश विषामर्थे विषां तथा तथा तु दण्डयेद् शूद्राणां तु सहस्राणां दण्डयेद्ब्राह्मणं तु तच्छतार्थं तु वा वैश्यं तद्दशार्थं दुशूद्रकं बन्धूनां चैव मित्राणामिष्टार्थे तु त्रिपादकम् अर्थं कलत्रपुत्रार्थे स्वात्मार्थे न तु आत्मानं हन्तुमारब्धं ब्राह्मणं क्षत्रियं विषं गां वा तुरगमन्यं वा हत्वा दोषैर्न लिप्यते आत्मधारात्मजभ्रातृबन्धूनां च द्विजोत्तमक्रमाद्दशगुणो दोषो रक्षणे च तथा फलम् भूपद्विजश्रोत्रियवेदविद्वृती वेदान्तविद्वेदविदां विनाशे ये ग्विपञ्चाशदथायुतं च स्यान्निष्कृतिश्चेदि वदन्ति सन्तः तेषां च रक्षणविधौ हि कृते च दाने पूर्वोदिदोत्तरगुणं प्रवदन्ति पुण्यं तेषां च दर्शनविधौ नमने च कार्ये शुश्रूषणेऽपि चरताम् सदृशांश्च तेषाम् सिंहव्याख्रमृगादीनि लोकहिंसाकराणि तु नृपो देवार्थे ब्राह्मणार्थके आपस्वात्मार्थके चापि हत्वा मेध्यानि नात्मार्थे पाजये पाचदन नात्त् पाजये पशून्द् देवार्थे, वापन वा, पचमानो से पुरा भगवती मया जगदुजीवनोन्मुखी ससर्ज सर्वेवाश तथैव सुरमानुषान् तेषां संरक्षणार्थाय पशूनपि चतुर्दश यज्ञाश्च तद्विधानानि कृत्वा चैनानुवाचः यजध्वं पशुभिर्देवान्विधिनानेन मानवाः शिष्टानि ये प्रदास्यन्ति पुष्टास्ते यज्ञभाविताः एवं प्रवर्तितं चक्रं नानुवर्तयति हयः दरिद्रो नारकश्चैव भवेज्जन्मनि जन्मनि देवतार्थे च पितर्थे तथैवाभ्यागते गुरौ चैव अन्यान मेध्यान महदागमने आपत्सु हनध्याप्योन्जह आपत्सुब्रमणो मेध्य मन दिता प्रतिषिधा वर्जयेत पुरा भूद्युवनाश्वस्य भूवनाश्व देवता महाक्रदु ममायदि समजायत तदा विभज्य पशुनपि मनुषाश पशूनपि विभज्यकैकश प्रद्रह्मोकतामह ततस्तु परमाशक्रिर्भूदस्सन्धसहायिनी कुपिता भूततो ब्रह्मातामुवाचनयान्वितः प्रादुर्भुदा समुद्वीक्ष्य भूदानन्दभयान्वितः प्राञ्चलिप्रणतस्तुत्वा प्रसीदे पुनः पुनः मम त्वयैतदखिलं कर्म निर्मिदं सुशुभाशुभं श्रुतय स्मृतयश्चैव त्वयैव ये विभक्तास्तु पशवो देवानां परमेश्वरि ते सर्वे तावकाः सन्धुभूतानामपि तृप्तये इत्युक्त्वान्तर्दधे तेषां पुर एव पितामहः तदुक्तेनैव विधिना चकारचमहाक्रदोन् इया च परं शक्रिंह त्वमेध्यान्पशूनपि तत्तद्विभागो वेदेषु प्रोक्तत्वादिहनोदिदः स्त्रियः शूद्रास्तधा मांस विना आपत्सुब्राह्मणो वापि शिवोद्भवमिदं पिण्डमत्यर्धं शिवदाङ्गदम् उद्बुद्ध्य स्वपशो त्वं हि नाशिवः सञ्चिवोष्यसि ईशः सर्वजगत्कर्ता प्रभवः आत्मार्थं वा परार्थं वा हत्वा दोषैर्न लिप्यते गृहानिष्टकरान् वापि नागाकुबलिवृच्छिकान् एतद् गृहाश्रमस्थानां क्रियाफलमपीप्सदां मनस्सङ्कल्पसिद्धानां महदां शिववर्चसाम् पशु ये न्य मिष्टूर्ति भवद जप होमार्चना मिष्ट सिद्ध्यी ब्रह्मांडे महापुराणे उत्तरभागे हयग्रीवागस्वादिपाख्या किं साध्यस्वरूपकथनं नाम षष्ठोऽध्यायः ओम्